गरुडपुराणम् आचारकाण्डम् अध्यायम् इलेवन् हरिरुवाच नवव्यूहार्चनम् वक्ष्ये यदुक्तम् कश्यपाय हि नाभ्यां मूर्धन्याम् नाभ्याम् व्योम्निवेशयेत् ततोरमिति बीजेन दहेद्भूतात्मकम् वपुः तच्च सर्व सर्वविनाशयेद् लमित्यनेन बीजेन प्रागये सचराचरं वमित्यनेन बीजेन चिन्तयेदमृदं तदः तदोद्वदमध्ये तु पीदवासाश्चर्भुजः तदो भूद्भूतमध्येतु पीदवासाश्च दुर्भुजः अहं मदस्तदात्मानं ध्यानेन परिचिन्तयेत् मन्त्रन्यासं तद कुर्या करदेहयोः द्वादशाक्षरबीजेन उक्तबीजैरनन्तरं षडङ्गेन तद कुर्या साक्षाद्येन हरिर्भवेद दक्षिणाङ्गुष्ठमारभ्य मध्याङ्गुष्ठम् दले न्यसेद् मध्ये बीजद्वयम् न्यस्य न्यसेदङ्गेतदः पुनः हृच्छिरसि शिखा वर्म वक्राक्षुदः पृष्ठदः बाह्व्योश्च करयोर्जाह्नोपादयोश्चापि विन्यसेद पद्माकारौ करौ कृत्वा मध्ये गुष्ठम् निवेशयेत् चिन्तयेत्तत्र सर्वेषाम् परम् तत्त्वमनामयम् क्रम च इदानि बीजानि तार्जन्यादिषु विन्यसेत् ततोमूर्थाक्षिवक्त्रेषु च हृदये तथा भौ गुह्ये तथा जाह्दयोर्विन्यस्येत् क्रमाद पाण्यो षडङ्गबीजानिन्यस्य काये तदोन्यसद अङ्गुष्ठादिकनिष्ठान्तं विन्यस्य द्वीज पञ्चकम् करमध्यनेत्र बीजमङ्गन्यासप्ययं क्रमः हृदये हृदयं न्यस्य शिरशिरसि विन्यसेद शिखायां तु शिखं न्यस्य कवचं सर्वतस्तनौ नेत्रं नेत्रे विधातव्यमस्त्रञ्च करयोर्द्वयोः तेनैव च दिशो पूजा विधिमधाचरेद हृदये चिन्तयेत् पूर्वम् योगपीठं समाहितः कर्मज्ञानं च वैराग्यम् ऐश्वर्यं च यथाक्रमम् आज्ञेयादौ च पूर्वादाव धर्मादींश्च विन्यसेद येभि पीडभूदं पीडभूतं तदात्माकम् अनन्दं विन्यसेत् पश्चात् पूर्वपायोन्नतं स्थितं ततो विद्या दलाष्टसामि दलाष्ट समदिग्दलं सिताब्धं शतपत्राढ्यं विप्र कीर्णोर्ध्वकर्णिकम् ध्यात्वा वेदादिनपश्चात् सूर्यसोमानलात्मनां मण्डलानि क्रमादेव मोपर्युपरि चिन्तयेत् तदपूर्वादि दिक्संस्थाशक्ति केशवगोचराः विमलाद्या न्यसेदष्टौ नवमीम् कर्णिकागताम् एवम् ध्यात्वा समभ्यर्च्य योगपीठमनन्तरम् मनः सा वास्यतत्रेशम् हरिम् शार्ङ्गम् न्यसेत् पुनः हृदयादीनि पूर्वादिचतुर्दिग्दलयोगदः मध्यनेत्रम् तु कोणेषु अस्त्रमन्द्रम् न्यस्येत्तदः सङ्घर्षणादिबीजानि पूर्वादिक्रमयोगदः द्वारिपूर्वे परे चैव वैनतेयम् तु विन्यस्येत् सुदर्शनम् सहस्रारं दक्षिणे द्वारि विन्यसेद श्रियं दक्षिणदोऽन्यस्य लक्ष्मीमुत्तरतस्तथा द्वार्यत्तरेकदान्यस्य शङ्खं कोणेषु विन्यसेद देवदक्षिणदशार्गं वामे चैव सुधीर्ण्यसेद तद्वत् खड्गं तथा चक्रं न्यस्येत् पार्श्वद्वयोर्द्वयं ततोन्तर्लोकपालांश्च स्वदिग्भेदेन विन्यसेद् वज्रादीन्यायुधन्येव तथैव विनिवेशयेद् ऊर्ध्वं ब्रह्म तदानन्दमधश्च सर्वं ध्यात्वेदि सम्भूज्य मुद्रा सन्दर्शयेतदः अञ्जलिप्रथमा मुद्राक्षिप्रं देवप्रसाधनी वन्दनी हृदया सकृदात् सार्धं दक्षिणतोन्नदा ऊर्धाङ्गुष्ठो वाममुष्टेर्दक्षिणाङ्गुष्टबन्धनः सव्यस्य तस्य चाङ्गुष्ठो यः स ध्रुवप्रकीर्तितः तिस्त्र साधारणो ह्येदा मूर्तिभेदेन कल्पिताः कनिष्ठादिप्रया कनिष्ठादिप्रयोगेण अष्टौ मुद्रा यथा क्रमन् अष्टानाम् पूर्वबीजानाम् क्रमशस्त्ववधारयेत् दा, अङ्गुष्ठेन कनिष्ठान्तम् नामयित्वाङ्गुलित्रयम् मुद्रेयं नरसिंहस्य न्युब्जं कृत्वा करद्वयं सव्यहस्तं ततोत्तानं कृत्वोर्धम् भ्रामये चनैः नवमीयं स्मृता मुद्रा वराहाभिमदा सदा मुष्टिद्वयमधोत्तान मृज्वे कैकेन नमोचयेदे उत्कुञ्चयेत् सर्वमुक्त अङ्गमुद्रेयमुच्यते मुष्टिद्वयमधोबद्धा एवमेवानुपुर्वशः दशानां लोकपालानां मुद्राश्च क्रमयोगदः स्वरमाद्यं द्वितीयं च उपान्द्यश्चान्द्यमेव च वासुदेवो बलकामो ह्यनिरुद्धो यथा क्रमम् प्रणवस्तत्सदित्येद हुं क्षौमम् भूरिमन्द्रकाः नारायणस्तथा ब्रह्मविष्णुसिंहो वराहराद सितारुणहरिद्राभालश्यामल्लोहिताः मेकाग्निम तु पिङ्गाभार्णदो नवकामकाः तं तं पं षं सुदुर्षणं स्याज्यं कं वं च सुदूर्शनम् षं ददादेवी वं लं कम्बं च वनमालास्याच्छ्रीवत्सं दं सं भवेद शं तं पं यं कौस्तुभप्रोक्तश्चानन्दोह्यहमेव योगं देवदेवस्य वैदशा गरुडोम्बुजसङ्घाचो गदा शिरेश पुष्पाभा लक्ष्मी कांचन सभा पूर्णचंद्रनिभ शंख कौस्वरुण्युति चक्रम सूर्यसहस्राभं श्रीवत्सकुंदसनिभ पंचवर्ण निभाख्यनंदो मेकस विद्यो विद्युद्रूपाणि शास्त्राणि यानि नोक्तानि वर्णदः अर्घ्यपाद्यादिवैद्यात् पुण्डरीकाक्षविद्यया इति श्रीस्का इति श्रीगारूढे महापुराणे आचार्यकाण्डे नवव्यूहार्चनम् नामैकादशोऽध्यायः Om um...